सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधितमस्तुमाविद्विषावहै ओम् शान्तिः शान्तिः शान्तिः सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नाराजडम् देवमक्षरम् परमम् पदम् विश्वतः परमा नित्यम् विश्वन्नाराजडगुम्हरिम् पतिं पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् गणम् महाज्ञेयम् विश्वात्मानम् परागणम् नारागणपरो ज्योतिरात्मा नारागणः परः नारागणपरम् ब्रह्म तत्त्वम् नारागणः परः नारागणपरोद्ध्याताध्यानम् नारागणः परः यच्च किञ्चिज्जगत् सर्वम् दृश्यते ए श्रूजतेऽपि वा अन्तर्बहिश्च तत् सर्वम् व्याप्य नारागणस्थितः अनन्तमव्ययम् कविगम् समुद्रेन्दम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगम् हृदयम् चाप्यधोमुखम् अधोनिष्ट्या वितस्यान्ते नाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् वत्याकोशसन्निभम् तस्यान्ते सुषिरगुम् सूक्ष्मम् तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महाग्निर्विश्वार्तिर्विश्वतो मुखः सोऽग्रभुग्रिभजन् तिष्ठन्दाहारमजरः कविः तिर्यगूर्ध्वमधश्यायीरश्मयस्तस्य सन्तता सन्तापगति स्मन्देहमापादतलमस्तकः तस्य मध्ये वह्निशिखा अणीयो ऊर्ध्वा व्यवस्थितः नीलतो यदमध्यस्थाद्विद्युल्लेखे बभास्वरा नीवारशूकवत्तन्मीपीताभा आस्वत्यनुपमा तस्या आशिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्म स शिवः स हरिः सेन्द्रः पुरुषं परमः स्मराड् हृतगम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् नमो नमः नारायणाज विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ओम् शान्तिः शान्तिः शान्तिः